प्रपत्यष्टकम् आवर्तपुर्याम् जनितं प्रपद्ये पाण्ड्येषदेशे विरतं प्रपद्ये शोणाचलप्रस्थचरं प्रपद्ये भिक्षुं तपक्लेशसहम् प्रपद्ये आब्रह्मकीटान्तसमं प्रपद्ये जितारिषड्वर्गमहम् प्रपद्ये सर्वज्ञतासारभृतं प्रपद्ये निःसीमकारुण्यनिधिम् प्रपद्ये अस्मात्प्रपञ्चादधिकम् प्रपद्ये विश्वाधिकोक्तेर्विषयम् प्रपद्ये कालग्रहग्राहभयापनित्यै कृतान्तशिक्षाकृतिनं प्रपद्ये विनेतुमार्तिं विषयाध्वजन्याम् विज्ञानमूर्तिं दधतं प्रपद्ये कन्दर्पदर्पज्वरवारणाय लीलावतारं प्रपद्ये आजन्मवर्णिव्रतिनं प्रपद्ये कुण्डीभृतं दण्डधरं प्रपद्ये ब्रह्मासनध्यानरतं प्रपद्ये ब्रह्मात्मभूयं यतिनं प्रपद्ये हरं प्रपद्ये विजरं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये अमेयशार्थसामर्थ्यवहं प्रपद्ये विशुद्धविज्ञान्यवरं प्रपद्ये दौर्भाग्यतापत्रयकर्म मोह सन्तापहन्तारमहं प्रपद्ये यथार्थसङ्कल्पमपेतपापमवाप्तकामम् विशुचम् प्रपद्ये मनःप्रसादम् भजतां ददानम् मुग्धस्मितोल्लासिमुखम् प्रपद्ये व्यथामशेषां व्यपनेयमोदप्रदेन नाम्ना रमणम् प्रपद्ये शिवम् प्रपद्ये शिवदम् प्रपद्ये गुरुम् प्रपद्ये गुणिनम् प्रपद्ये मदीयहृत्पद्मजुषम् प्रपद्ये शरण्यमेषं शरणम् प्रपद्ये प्रपत्तिम् रमणस्ययिताम् तन्वताम् तत्त्वदर्शिनः तत्कृतिन्यायरसिकाः तत्तादृशफलाप्तये इति श्रीजगदीशशास्त्रे विरचितम् प्रपत्यष्टकम् सम्पूर्णम्